प्रसह्यबन्धने बद्ध्वा प्रशासिष्येव सुन्धराम् एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा नित्यमेवान्तरप्रेक्ष्ये भीमस्यासीन्महात्मनः ततो जलविहारार्थं कारयामासारता चैलकम्बलवेश्मानि विचित्राणि महान्ति च सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च तत्र नानागाराण्यनेकषः उदकक्रीडनं नाम कारयामासभारत प्रमाणकोट्यां तं देशं स्थलं किञ्चिदुपेत्यः भक्ष्यं भोज्यं च पेयं चोष्यं लेह्यमथापि च उपपादितं नरैस्तत्र कुशलैसूदकर्मणि न्यवेदयंस्तत्पुरुषा धर्तराष्ट्राय वैतदा ततो दुर्योधनस्तत्र पाण्डवानाः दुर्मतिः गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् सहिता भ्रातरः सर्वे प्रत्युवाच युधिष्ठिरः ते रथैर्नगराकारैः देशजैश्च गजोत्तमैः निर्ययुर्नगराच्छुराः कौरवाः पाण्डवैः सह उद्यानवनमासाद्या विसृज्य च महाजनम् विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् उद्यानमभिपश्यन्तो भ्रातरः सर्व एव